नामा सर्वबुद्धबोधिसत्त्वेभ्यः नमः सप्तानाम् सम्यक् सम्बुद्धकोटीनाम् सस्रावकसङ्घाना नमो लोके अर्हताम् नमः श्रोतापन्नानाम् नमः सगृदागामिनाम् नमः अन्नागामिनाम् नमो लोके सम्यक् कथानाम् सम्यक् प्रतिपन्नानाम् नमो देवाषिणाम् नमः सिद्धविद्याधारषिणाम् नमो ब्रह्मणे नमः नम्म इन्द्राय नमो भगवते रुद्राय उमापतिसहीयाय नमो भगवते नारायणाय लक्ष्मीपञ्चमहामुद्रा नमस्कृताय नमो भगवते महाकालाय त्रिपुरनगरवितरापणकराय अधिमुक्तः क्रश्मशानवासिने मार्णनमस्कृताय नमो भगवते दधागतकुलाय नमो भगवते पद्मकुलाय नमो भगवते वज्रगुलाय नमो भगवते मणिगुलाय नमो भगवते गजगुलाय नमो भगवते दृढशूरसेन प्रहरणराजाय तथा गताय हते सम्यक् सम्बुधाय नमो भगवते अमिताभाय तथा गतायार्हते सम्यक् सम्बुधाय नमो भगवते अशोभ्याय तथा गतायार्हते सम्यक् सम्बुद्धाय नमो भगवते भैषजगुरुवारूर्यभ्रभराजाय तथा गतार्हते सम्यक् सम्बुधाय नमो भगवते सम्पुष्पितसालेन्द्रराजाय तथा गतायार्हते सम्यक् सम्बुधाय नमो भगवते शाक्यमुनये तथा गतायार्हते सम्यक् नमो भगवते रत्नकुसुम्मगे दुराजाय तथा गतायर्हते सम्यक् सम्बुधाय तेषाम् नमस्कृत्व इमाम् भगवतस्तथा गतोऽष्णीषम् सिद्धात्त पत्रम् नमा पराजितम् प्रत्यङ्गिरम् सर्वभूतग्रहानि ग्रहकरणि पर विद्या छेदानि अकालम् मृत्यु परित्राणकरीम् सर्वबन्धन मोक्षणि सर्वतुष्टतुः स्वप्नानिवारणि चतुरशीतीनाम् ग्रह सहस्राणाम् विध्वंस नगरीम् अष्टाविंशतीनाम् नक्षत्राणाम् प्रसादनघरीम् अष्टानाम् महाग्रहाणाम् विध्वंसनगरीम् सर्वशत्रो निवारणि घोरम् दुःस्वप्नानाम् जनाशणि विश्वशस्त्र अग्नि उत्तरणि अपराजितम् महाघोरम् महाबलाम् महाजडा महागीप्तम् महादेजम् महाशेता महाज्वलम् महाबला पाण्डरवासिनि आर्यताराभृगुटीम् च विजय वज्रमले दि वि श्रुताम् पद्मम् कम् वज्र जिह्वच माला च पराजित वज्रारण्डी विशाला साम्यरूप महाता आर्यतारा महाबल अपरा वज्रशकला च वज्रकौमारिकुलन्धरी वज्रहस्ता च महावित्यागाम् जनमालिका कुसुम्भ रत्न च वाय रोचन्ना कुला धा उष्णीक विजृम्भमाना च स वज्र कनकप्रभ लोचन वज्रा इत्येते पुत्रा गर्णा सर्वे रक्षम् कुर्वन्तु मम सर्वसत्वानाम् च ॐ वृषिगण प्रशास्तय सर्व तथागतोष्णीषाय हुम् ध्रुरुम् जम्भनकार हुम् ध्रुरुम् तम्भनकार हुम् धुरुम् मोहनघर सर्वा दुष्टानाम् सम्भानाकारा हूम् ध्रुरुम् सर्वा य राक्षस ग्रहाणाम् विध्वंसनाकारा हूम् ध्रुरुम् चतुरशीतीनाम् ग्रहसहस्राणाम् विध्वंस अष्टाविंशतीनाम् नक्षत्राणाम् प्रसादनकरहु रुम् अष्टानामहाग्रहाणाम् उत्सादनकरहु रुम् रक्ष रक्ष माम् भगवन्त गतोऽष्णीष सिता तपत्र महावज्रोष्णीष महाप्रत्यङ्गिरे महासहस्रभुजे सहस्रशीर्षे कोटि शत सहस्रनेत्रे अभेर्य ज्वलिता रटक महावज्रोदार त्रिभुवर्णमण्डल ॐ स्वस्तिर्भावा तु भैया चोर भय्या उदक भया अग्निभया विश्वभया शस्त्रभया परचक्र भया दुर्भिक्ष भया अशनि भया अकाला मृत्युभया धरणी भूमि कम्पा भ उल्का पाद भय्या राजा दण्ड भया सुपर्णि भय्या नाग भ विद्युद्भय्या देवग्रहा नाग्रह यक्षग्रह राक्षसग्रहा प्रेतग्रह पिशाच ग्रह भूतग्रहघण्णग्रह पूतन कच्च पूतन्न ग्रहा स्कन्दग्रहा अपस्मारग्रह उन्माद ग्रहछायाग्रह रेवति ग्रहा जमिका ग्रह कण्ठगामिनि ग्रह ओजा हरिण्या गर्भाहारिण्या जाता हरिण्या जीविता हरिण्या रुधिरा हारिण्या साहारिण्या मांसाहारिण्य मेधाहारिण्या मज्जाहारिण्या वान्दाहारिण्या अशुजाहारिण्या चिचाहारिण्य तेषाम् सर्वेषाम् सर्वग्रहाणाम् विद्याम् छन्दयामि कीलयामि परिप्रजाककृताम् विद्याम् सिन्दयामि कीलयामि डाकडाकिनी कृताम् विद्याम् सिन्दयामि कीलयामि महापशुपतिरुद्राकृतामिद्याम् छिन्दयामि कीलयामि नारायणा पञ्चमहामुद्रा कृतामिद्याम् छिन्दयामि कीलयामि तत्त्वगरुडसहीयाय कृतामिद्याम् छिन्दयामि कीलयामि महाकालमातृकर्णसहीयाय कृताम् विद्याम् छिन्दयामि कीलयामि का पालिक कृताम् विद्याम् छिन्दयामि कीलयामि चय खरा मरुकर सर्वार्धसाधक कृताम् विद्याम् छिन्दयामि कीलयामि चतुर्भगिनी त्रि पञ्जमा सहियाय कृताम् विद्याम् छिन्दयामि कीलयामि भृङ्गिरिचिका नन्दिकेश्वर गणपति सहीयकृताम् विद्याम् छिन्दयामि कीलयामि नग्न श्रमण कृताम् विद्याम् छिन्दयामि कीलयामि अर्हन्दकृता विद्याम् छिन्दयामि कीलयामि वीतरागकृता विद्याम् छिन्दयामि कीलयामि वज्रपाणि कुह्यकाधिपतिकृताम् विद्याम् छिन्दयामि कीलयामि रक्ष रक्षमा भागवतस्तथा गतो हि शंसितात्त पत्रम् नमोऽस्तु ते वासिता न भ्रम स्पूज्य पत्रे ज्वल्ल ज्वल्ल धग धग विध ग विध दर दर वि दर वि दर छिन्द छिन्द भिन्द बिन्द हूँ हूम् स्वाहा हे हे भट् अमोघभट् अप्रतिहतभट् वरप्रदभट असुरविद्रापकभट् सर्वदेवेभ्य भट् सर्वनागेभ्य भट् सर्वयशेभ्यः भट् सर्वराक्षसेभ्यफट् सर्वगरुडेभ्यः सर्वगन्धर्वेभ्य भट् सर्व असुरेभ्यः भर्वा किन्दारेभ्यः भक् सर्वमहोरागेभ्यः भक् सर्वमानुष्येभ्यः भट् सर्व अमानुष्येभ्यः भट् सर्व भूतेभ्यः भक् सर्वचेभ्यः भट् सर्व कुम्भाण्डेभ्यः भट् सर्व भूतन्नेभ्यः भट् सर्वपूतनेभ्यः भट् र्वुर्लंघितेफ दुष्पेषिस्फरे फर्वापस्म फर्व्रवणे फटतिर्क्येभ्य फटेस्फ विद्याज्य फट चयघर मधुकर सर्वार्थसाधकेभ्यः फट् सर्वविद्याचार्येभ्यफट् चतुर्भगिनी व्यफट् वज्र कौमारी कुलन्धरी महाविद्या राजेभ्यः फट् महाप्रत्यङ्गिरेभ्यः फट् वज्रसलाय भट् महाप्रत्यङ्गिरराजाय भट् महाकालाय महामातृगणनमकृताय भट् विष्णुवीये भट् ब्रह्मणीये भट् अग्नीयेफट् महाकालीये भट् कालण्डीये भट् इन्द्रीये भट् रात्रीयेभट् चावण्णीये भट् कालरात्रिये भट् का पालीये भट् अर्हि मुक्तः कस्मशानवासिनीये भट् ये केचित् स त्वमा चित्ता पा प्रचित्तारा रचित्ता त्वे क्रचित्ता उत्पादयन्ति कीलयन्ति मन्त्रयन्ति जन्ति चुवन्ति ओ जारा जा गर्भाहारा रुधिराहारा वसाहारा जाहारा जाता हारा जीविता हारा मया कन्धा हारा पापचित्ता तुष्टचित्ता राचित्ता यक्षग्रह राक्षसा ग्रहः प्रेत ग्रह पिशाच ग्रह भूतग्रहः गुम्भाण्डाग्रह स्कन्धाग्रह उद्मादग्रहः छायाग्रह अब स्म ग्रह डिनी ग्रह रेवातिहाकूनी ग्रह मंद्रनंदक्रह लंबिग्रह हणुखंडग्रह ज्वर एका हिका त्वादीयका स्रादीयका चतुर्धका नित्यज्वरा विषमज्वरा वादिका पायतिका श्लेष्मिका सन्निपतिका सर्वज्वर शिरोर्ति अर्धव भेदक अक्षिरोगम् नस रोगम् मुखरोगम् हृदरोगम् कालागृहम् कर्णशूलम् तन्धशूलम् हृदयशूलम् वर्मशूलम् पार्श्वशूलम् पृष्ठशूलम् उदरशूलम् कञ्चीशूलम् वस्तिशूलम् ऊरुशूलम् जाघशूलम् हस्तशूलम् पादशूलम् सर्वाङ्ग प्रत्यङ्गशूलम् भूतवेताडा गडाकिनी ज्वर दधृकाण्डुकिचिफलो तव सर्पलोहालिङ्ग शुश्रसगर विषयोग अग्नि उदकमारवाैरकान्धार अकाल मृत्यु त्रैबुक त्रैलचक वृष्टिक सर्प नकुल सिंह व्याघ्र रक्षा रक्ष मृग स्वपर जीवतेषाम् सर्वेषाम् सितात्त पत्रम् महावज्रोष्णीषम् महाप्रत्यङ्गिरम् याव त्वादशयो जन्नाभ्यन्तरेण सीमा बन्धम् करोमि दिशा बन्धम् करोमि पारविद्या बन्धम् करोमि तेजो बन्धम् करोमि हस्तबन्धम् करोमि पादबन्धम् करोमि सर्वाङ्ग करोमि तत्यथा ओ अनाले अनाले विषदे विषदे वीरवज्रधरे बन्धः बन्धनि वज्रपाणिभट् हूम् ध्रुम् भक् स्वाहा नमः तथा गताय सुकताय रते सम्यक् सम्बुद्धाय सिहन्तु मन्त्रपार सुवाहा